मुद्गलपुराणं खण्डं नयन योगचरितम् अध्यायं सेवन्टीन् दक्षसिद्धिप्राप्तिवर्णनं श्रीगणेशाय नमः मुद्गल उवाच एतत्ते कथितं सर्वं रहस्यं परमम्मया गणेशस्य प्रजानाथ समासेन शुभप्रदम् अतो भजगणाध्यक्षं सर्वेप्सितमवाप्स्यसि माशोकं शोकं कुरुदक्षत्वं यज्ञध्वंस सभवं परं सूत उवाच यभमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परं विधियुक्तं विधानेन मुनिर्दक्षायमुद्गलः तेन सम्पूजितो योगी ह्यभवद्गन्धुमुद्यतः तस्मिन् काले गणाध्यक्षः प्रकटो भूच्छुभप्रदः मूषकोपरि संस्थं तं सिद्धिबुद्धिसमन्वितं पाशाङ्गुशरदैर्युक्तमभयं धारकं प्रभुं गजास्यं रक्तवस्त्रैः सञ्चादितं भूषणैर्युधं नाभिशेषं गणैर्युक्तं प्रमोदाद्यै त्रिनेत्रमेकदन्तं च महाकुक्षिं परात्परं दृष्ट्वा समागतं दक्षो मुद्गलो हर्षितो भवद उद्धाय सर्वसंयुक्तो ननामद्विरदाननं दक्षश्च मुद्गलो विप्रो दण्डवत्पृथिवीतले ततो दिहर्षसंयुक्तो दक्षस्तं प्रजगादः गणेशं भक्तिसंयुक्तसरोमाञ्जोऽश्रु संयुधः दक्ष उवाच धन्योऽहं सर्वभावैश्च दर्शनात्ते गजानन वेदान्ता गोचरोऽसि त्वं ब्रह्मरूपः समागतः धन्योऽयं योगी पुराणं धन्यमुत्तमं मौद्गलं यन विघ्नेशो मया प्राप्तः परात्परं मुद्गलेन समाख्यातं भवत्याधीनो गजाननः तदद्य सत्यरूपं यन्मया ज्ञातं मुद्गलस्यैव भक्त्या त्वं मोहिदसहसा गदः त्वत् श्रेष्ठो गणेशानमुद्गलो नात्र संशयः भ्रान्तस्तन्नस्मजानाधिकृत्यं विघ्नेश्वर यशः जय हैरम्बविघ्नेश गणेशमूषकध्वज गजाननपरेशान जय लम्बोदर प्रभो उच्चरन् शास्त्रनेत्रश्च देहातीत इवाभवद यदस्मिन्नन्तरे सर्वे समाजग्मुसुरेश्वराः शिवविष्णुमुखस्तत्रागतं ज्ञात्वा गणाननम् मुनयो भृगुमुख्याश्च नारदाद्याः सुरर्षयः शुकाद्याः सनकाद्याश्च कपिलाद्या महामुने वसवसाद्यरुद्राश्च गन्धर्वाक्सरसस्तथा अश्विनौ शेषमुख्याश्च नागाः पर्वतनायकाः सिद्धाश्चारणमुख्याद्या असुराधर्मपालकाः विद्या धरा अनेकशः प्रणे मूर्गणराज्यं ते हर्षयुक्ता प्रदुष्टुः भक्तियुक्ता विशेषाणात्मानं धन्यं च पुराणश्रवणस्यैतत् दृष्ट्वा फलमनन्दकं बोधयामास दक्षं स तदो दक्षोधिहर्षितः हर्षं नियम्यविघ्नेशं यथाविधि पुपूजः ततो देवेश्वरान् देवान् विप्रादीन् योगिमुख्यकान् पूजयित्वा पुनः सोऽपि प्रणनाम गजाननं साश्रु नेत्रः प्रतुष्ठाव भक्तिनम्रात्मकन्धरः अनुतं देवविप्राद्या स्तुष्टुवुष्टं परेश्वरं सदेवर्षिर्दक्ष उवाच नमस्ते गणेशाय सर्वात्मने ते सदा भक्तिमोहेन मोहात्मकाय महेशादिदेवै शुपाध्यै स्तुतायक्षयोगाय संयोग दारिन्नमस्ते गजाननाय वैतुभ्यं नमः परशुपाणये गदाधराय शङ्घं वै दारिणे नमो नमः विघ्नेशाय परेशाय महाविघ्नविदारिणे अनाधाय सनाधाय हे रम्भाय नमो नमः नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय विनि अभक्तकामान्विनिहन्द्रकाय सदा सुशान्तिप्रतते नमो वै ब्रह्मेशायनमस्तुभ्यं सदा स्वानन्दवासिने सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः दैत्यमस्तकधाराय दिदिपुत्राय ते नमः कण्ठाधो देवकायाय नमो सुरसुराय ते योगाय सर्वात्मक सर्वपूज्य मायाविनां मोहकराय तुभ्यं माया, मोह माया प्रचालाय सुसिद्धिदाय धर्मस्थपालाय तु शूलबाणे अनन्तलीलयानाथस्वयं केलसि तत्र किं वर्णयाम्येवादो ब्रवीमि नमो नमः सदा योगस्वरूपाय भक्तिभावप्रदाय ते भक्तिप्रियाय पूर्णाय भक्तवत्सलते नमः प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसं मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद एवमुक्त्वा गणेशानां प्रणनाम प्रजापतिः अनुदं देवविप्राद्याः प्रणेमुस्तं परात्परं तमुद्धाप्य गणाधीशो जगादवच उत्तमं दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः श्रीगणेश उवाच वरान् वृणुप्रजानाथ दास्येते तुष्टिमागतः श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सिदान् त्वया कृतमिदं स्तोत्रं भुक्ति भवेद यं यमिच्छति तं वै दास्यामि स्तोत्रपाठदः ब्रह्मपदं सुशान्तेश्च दायकं भक्तिवर्धनं भविष्यति महाप्राज्ञ परमत्प्रीतिवर्धनं गणेशवचनं श्रुत्वा प्रणम्यतम् जगादाध भक्ति धरः दक्ष उवाच वरदोऽसि गणाध्यक्ष तदा ते दे भक्तिमुत्तमां देहि मे यच्च कृत्यं तदादिशेखरवाणिकिं तच्छ्रुत्वा गणनाधस्थं जगाद वच उत्तमम् ज्ञात्वा भक्तिप्रियं दक्षम् हृष्टरो महामुने श्रीगणेश उवाच मदीयां भक्तिमत्यन्तं करिष्यसि महामदे दक्षाद्यप्रभृतिप्राज्ञो भविष्यसि यथार्थगः यज्ञं गुरुमहेशेन मया ध्वस्तं समन्वितः किञ्चित्कृष्टं प्रदत्तं ते शा पै शैवै सुखी भव योगशान्तियुतो नित्यं मां भजिष्यसि सर्वदा सर्वमान्य सर्वमुख्यो भविष्यसि प्रजापतिः एवमुक्त्वा गणेशानो विररामचशौनक दक्षो कृष्णमना भूत्वा स चक्रे यज्ञमुत्तमं सम्भूज्यादौ सुरान् मुनीन्नागाधिकान् सर्वान् विससर्ज सुहर्षितः ततो मुद्गलविप्रेष्यं पूजयन्भक्तिसंयुतः उवाच तं सरोमाञ्चो दक्षो दक्षगणाग्रणीः दक्ष उवाच किं ददामि महायोगिन् शिष्योऽहं ते न माम्यदः शरीरं पदपद्मेते समर्पितमिदं प्रभो ततो दक्षं समानन्द्य मुद्गलः मुने स्वाश्रयं गानपत्यैः संसेविदं गणप्रियः इदं दक्षस्य माहात्म्यं कथितं ते समासदः मुद्गलस्य तथा श्रेष्ठं सर्वसिद्धिप्रदायकं पुराणं मौद्गलं पूर्णं कथितं योगभाविधं सर्वमान्यं विशेषेण सर्वसंशयनाशनं पुराणश्रवणस्यापि फलं प्रोक्तं मया परं श्रवणेन प्रजानादो दक्षो दक्षो बभूवः अधुनाहं गमिष्यापि स्वाश्रमं विप्रणायक त्वदाज्ञया वद स्वामिन् किं करोमि हितं पुनः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गरे महापुराणे नवमे योगचरिते दक्ष सिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ओम्